ोडशः सर्गः वसतस्तस्य तु सुखम् राघवस्य महात्मनः शरद्यपाये हेमन्त ऋतुरिष्टः प्रवर्तत स कदाचित्प्रभातायाम् शर्वर्या मृघुनन्दनः प्रययावभिषेकार्थम् रम्याम् गोदावरीम् नदीम् प्रह्वः कलशहस्तस्तु पृष्ठतोऽनुव्रजम् भ्राता सौमित्रिरिदमब्रवीत् अयम् स कालः सम्प्राप्तः प्रियो यस्ते प्रियं वदा अलङ्कृत इवा भाति येन शुभः नीहारपरुषो लोकः पृथिवी सस्यमालिनी जलान्यनुपभोग्यानि सुभगो हव्यवाहनः न वा पितृदेवताः कृताग्रयणकाः काले सन्तो विगतकल्मषाः प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः विचरन्ति महीपालायात्रार्थम् विजिगीषवः सेवमाने दृढम् सूर्ये दिशमन्तकसेविता विहीनतिलकेवस्त्रीनोत्तरादिप्रकाशते प्रकृत्याहिमकोषाढ्यो दूरसूर्यश्च साम्प्रतम् यथारुक्त हिमवान् हिमवान्गि अत्यसुख सचारा मध्या स्पर्शता सुखा, सुखा। दिवसुभादिश्छाया सली दुर्भगा मृदु सूरिया सुहारा पटुशीता सरता शून्य हिमधवस्ता दिवस भाति सांत निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः शीतवृद्धतरायामा स्त्रिया मायान्ति साम्प्रतम् रविसङ्क्रान्तसौभाग्यस्तुषारुणमण्डलः निःश्वासाह्ह इवादर्शश्चन्द्रमान प्रकाशते ज्योत्स्ना तुषारमलिना पौर्णमास्याम् न सीते वचा तपश्यामा लक्ष्यते न प्रकृत्या शीतलस्पर्शो हिमविद्धश्च प्रवाति प्रवातिपश्चिमो वायुः काले द्विगुणशीतलः बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्च सारसैः खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः शोभन्ते किञ्चिदालम्बाः शालयः कनकप्रभाः मयूखैरुपसर्पद्भिर्हिमनीहार संवृतैः दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते आग्राह्य वीर्यः वनानाम् शोभते भूमिर्निविष्टतरुणातप स्पृशन्सु विपुलम् शीतमुदकम् विरधः सुखम् अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् एते हि विहगा जलचारिणः नावगाहन्ति सलिलमप्रगल्भा इवाहवम् अवश्याय प्रसुप्ता इव लक्ष्यन्ते विपुष्पावनराजयः बाष्पसञ्छन्न सलिला ऋतविज्ञेयसारसाः हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् तुषारपतनाच्चैव मृदुत्वात् च शैत्यादगाग्रस्थमभिप्रायेण रसवज्जलम् जराजर्जरितैः पत्रैः शीर्णकेसरकर्णिकैः षाध्वस्ता न भाजक अस्मस्तपुरश व्याघ्र काले दुखसम तप्चर धर्माभक्त भरत पुरे त्यक्राज्यन भोगगां विधा बहून तपस्वी नियता हेते शीते महीत सोपेलां नूनमिषेका वृतः प्रकृतिभिर्नित्यम् प्रयाति सरयूम् नदी अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः कथम् त्वपररात्रेषु सरयूमवगाहते पद्मपत्रे क्षणश्यामः श्रीमान्निरुदरो महान् धर्मज्ञः सत्यवारी च ह्रीनिषेवोजितेन्द्रियः प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः सन्त्यज्य विविधान् सौख्या नार्यम् सर्वात्मना श्रितः जितः स्वर्गस्तवभ्रात्रा भरतेन इति ख्यातो लोकप्रवादोऽयम् भरतेन्यथा कृतः भर्ता कथम् नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी इत्येवम् लक्ष्मणे वाक्यम् स्नेहाद्वदति धार्मिके परिवादम् च रन्यास्तमसहन् राघवोऽब्रवीत् न तेऽम्बा मध्यमातात गर्हितव्या कदाचन तामेवेक्ष्वा कुनाथस्य भरतस्य कथाम् कुरु निश्चितैव हि मे बुद्धिर्वनवासे दृढव्रता भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च हृद्यान्यमृतकल्पानि मनः प्रह्लादनानि च कदा ह्यहम् समेष्यामि भरतेन चक्रेऽभिषेकम् काकुत्स्थः सानुजः सह सीतया तर्पयित्वाथ सलिलैस्तैः पितॄन् दैवतानपि स्तुवन्ति स्मोदितम् सूर्यम् देवताश्च रथा नघाः कृताभिषेकः सरराजरामः त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षोडशः